अस्माकं युगरिष्टजीवनमिति भगे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति सामर्थ्यस्य दुरुपयोगः घातकम् तर्हि अत्र घटः वर्तते घटे आकाशः वर्तते सः आकाशः घटाकाशः घटात् बहिः यः आकाशः वर्तते सः आकाशः महाकाशः तर्हि घटे यः आकाशः सः एव आकाशः बहिः अपि अस्ति यदा घटः भग्नः जायते तदानीं तस्मिन् यः आकाशः सः महा आकाशेन सह ऐक्यं तस्य आकाशस्य ऐक्यं भवति तादृशतत्त्वमेव अस्ति जीवशिवस्य जीवशिवयोः जीवः इति क्षुद्रः वर्तते शिवः इति बृहत्सप्ता वर्तते तर्हि साधनया साधनायाः द्वारा शूद्रतायाः शूद्रतायाः यत् बन्धनं वर्तते जीव जीवस्य तादृशबन्धनस्य बन्धनस्य विरोधे सङ्ग्रामः एव अस्ति साधना तर्हि परमपुरुषस्य कृपया जीवे एकः महान् गुणः वर्तते जीवेषु जीवेषु वस्तुतया वस्तुतः मनुष्येषु मनुष्येषु एकः महान् गुणः वर्तते इत्युक्ते तत्र जीवेषु एकः महान् गुणः वर्तते सः गुणः कः इति चेत् सः यथा चिन्तयति तद्वत् सः भवति यदि क्षुद्रसत्ता बृहत् बृहत्सत्तायाः भावनां स्वीकरोति तर्हि जीवः अत्र जीवः बृहत्सत्ता भवति एतत् एतादृशगुणः मनुष्येषु जीवेषु एता वर्तते कथं वर्तते इति चेत् परमात्मनः कृपया एव जीवेषु एतादृशगुणः वर्तते येन ते, ते शिवत्वस्य प्राप्तिं कर्तुं शक्नुवन्ति तर्हि प्रत्येकस्मिन् जीवे एतादृशसामर्थ्यं वर्तते यद् ते परमात्मना सह ऐक्यं ते प्राप्तुं शक्नुवन्ति पूर्वम् अपूर्णः आसीत् साधनाद्वारा सः पूर्णः भवति यदि परमात्मा एतादृशगुणं न ददाति जीवाय तर्हि जीवः अस्मिन् जगति एव सर्वदा सर्वदा भवति इत्युक्ते तत्र तत् परमात्मनः या लीला वर्तते तस्याः लीलायाः समाप्तिः न भवति इत्युक्ते तत्र लक्ष्यं न भवति लीलायाः लक्ष्यम् अथवा ततो गत्वा परमपुरुषस्य या लीला वर्तते तादृशलीलायाः लक्ष्यम् अस्ति जीवः शिवेन सह ऐक्यं प्राप्नुयात् इति एव लक्ष्यम् अस्ति यदि जीवेषु एतादृशगुणः नास्ति ते यथा चिन्तयन्ति तद्वत् भवन्ति इति तादृशगुणः नास्ति तर्हि तत्र तेषाम् ऐक्यं शिवेन सह परमात्मनः सह ऐक्यं कदापि न भवितुम् अर्हति अतः एव परमात्मना एतादृशः गुणः दत्तः अस्ति जीवायां तर्हि जीवः अनेन गुणेन यदा ते चिन्तयन्ति तद्वत् ते भवन्ति यदा ते परमात्मनः भावं स्वीकुर्वन्ति तदानीं ते परमात्मावत् भवन्ति इत्युक्ते अस्माकम् अस्माकं शरीरेषु यद् या शक्तिः वर्तते या बुद्धिः वर्तते अथवा ये गुणाः सन्ति तेषां सर्वेषाम् आधारः अस्ति परमात्मा वयं सर्वे तु परमात्मातः एव एतान् सर्वान् स्वीकृतवन्तः परमात्मना एव एते सर्वे हीयन्ते अतः तान् स्वीकृत्य वयं लोके व्यवहारं कुर्मः तर्हि अस्माकं व्यवहारः द्विधा भवितुम् अर्हति एतेषां गुणानां सदु ब... सदुपयोगः भवितुम् अर्ह अर्हति अथवा दुरुपयोगः भवितुम् अर्हति यदि वयम् एतेषां गुणानां शक्तीनां दुरुपयोगं कुर्मः तदानीं परमात्मा एतान् सर्वान् गुणान् हरति यतोहि अस्मिन् लोके वयं दृष्टवन्तः तत्र बहवः रावणाः आसन् बहवः द्रंशाः आसन, ते किं कृतवन्तः इति चेत् तेषां शक्तीनां दुरुपयोगं कृतवन्तः अन्ततो गत्वा तेषां नाशः जातः तेषां पार्श्वे या शक्तिः आसीत् तस्य हरणं जातं परमात्मना अन्ततो गत्वा तर्हि वयं प्रष्टुं शक्नुमः परमात्मना शक्ति दत्ता अस्माकं कृते शक्ति दत्ता तर्हि सः हरति पुनः किमर्थं हरति या शक्ति यदि वयं दानं दद्मः तदानीं पुनः तस्य ग्रहणं न कुर्मः खलु एकवारं दानं दद्मः चेत् पुनः तस्य प्रत्यर्पणम् इति विषयः न भवति तर्हि परमात्मा किमर्थं तथा करोति एकवारं शक्ति शक्तिदानं परमात्मना दत्तम् तर्हि किमर्थं सः हरति इति पृष्टे सति तर्हि यदि मनुष्यः शक्तीनां दुरुपयोगं करोति दुरुपयोगः इत्युक्ते सृष्टेः हानिः यदा मनुष्यः सृष्टेः यदा सृष्टेः रक्षा न भवति सृष्टेः तेषां व्यवहारेण तेषां शक्तीनां प्रयोगेण सृष्टेः हानिः भवति तदानीं परमात्मा एतादृशशक्तीनां हन हरणं करोति नो तर्हि सृष्टेः रक्षणार्थं परमात्मना एवं करणीयं भवति यदि सृष्टेः सुरक्षा भवति तदानीं सृष्टिः एव नश्यति तर्हि परमात्मनः लीलायाः लक्ष्यस्य पूर्तिः न कदापि न भवति अतः अस्माभिः किं करणीयमिति चेत् या शक्तिः लब्धा या बुद्धिः लब्धा तेषां सर्वेषां सदुपयोगः अस्माभिः करणीयः यदि दुरुपयोगं कुर्मः तदानीं तु परमात्मा तेषां सर्वेषां हरणं करोति परमात्मनः एकः नाम एकं नाम वर्तते एकं नाम वर्तते दर्पहारी इति ये स्वागताः सन्ति ये तीव्रभक्ताः सन्ति यदीते एतेषां गुणानां दुरुपयोगं कुर्वन्ति अथवा मनसि अहङ्कारः यदा आयति अहङ्कारेण गुणानां दुरुपयोगं कुर्वन्ति तदानीं परमात्मा किं करोति इति चेत् झटिति परमात्मा एतेषां गुणानां हरणं करोति दर्पस्य हरणं करोति अतः सः दर्पहारी अस्माकम् अहङ्कारस्य हरणं करोति दर्पहारी दर्प दर्पस्य हरणं परमात्मनः धर्मः अस्ति यदि दर्पस्य हरणं न करोति तर्हि सृष्टिः नश्यति खलु अतः एव परमात्मनः नाम वर्तते दर्पहारी इति लोके वयं द्रष्टुं शक्नुमः अस्मिन् जगति बहवः जनाः सन्ति ये बहु अहङ्कारिणः सन्ति तेषां समीपे बहु किमपि नास्ति किञ्चिदेव अस्ति तद् स्वीकृत्य ते अहङ्कारं ते अहङ्कारं कुर्वन्ति ते, ते अधिक अधिकदर्पिणः सन्ति तेषां गुणानां शक्तीनां दुरुपयोगं ते कुर्वन्ति अतः लोके जनाः अन्ये जनाः ये ते भयभीताः सन्ति तर्हि अस्माकं भयस्य कारणं नास्ति किमर्थं चेत् एतादृशाः मनुष्याः ये सन्ति ये अहङ्कारिणः तेषां दर्पस्य दम्भस्य हरणं करोति परमात्मा परमात्मा यदि एते जनाः तेषाम् अहङ्कारस्य अथवा तेषां गुणानां दुरुपयोगं कुर्वन्ति तदानीं परमात्मा न सहते सः न सहते सः झुटिति तेषां दर्पस्य हरणं करोति तेषां दर्पस्य नाशं करोति अस्माभिः परमात्मानं प्रति प्रार्थनीयम् इति अपि नास्ति एतेषां दर्पस्य हरणं करोतु इति प्रार्थनीयम् इति अपि नास्ति सः स्वयं जानाति यतोहि तस्य नाम अस्ति दर्पहारी खलु यदि यदि परमात्मा दर्पस्य हरणं न करोति तर्हि तस्य नाम दर्पहारी इति किमर्थं स्यात् दर्पहारी न स्यात् दर्पहारी इति नाम नाम त्यजतु परन्तु तथा नास्ति परमात्मा सर्वदा दर्पस्य हरणम् अवश्यं करोति अतः लोके यत्किमपि यः कोऽपि अन्यायः भवतु नाम परन्तु परमात्मा तत्सर्वं पश्यति समये, सः एतेषां जनानां दर्पं हरति अतः अतः यः साधकः अस्ति सः तस्मिन् भयस्य कारणं नास्ति साधके भयस्य कारणं एव नास्ति यदि एकः मनुष्यः अस्ति बहु शक्तिशाली वर्तते तथापि अस्माभिः तादृ तथापि वयं तादृशपुरुषं दृष्ट्वा भयभीताः न भवामः अस्मिन् जगति तादृशपुरुषः कोऽपि नास्ति यं दृष्ट्वा वयं भयभीतः भयभीताः भवामः इत्युक्ते अन्यम् अन्यं मनुष्यं दृष्ट्वा वयं भयभीताः न भवामः तस्मिन् पुरुषे कियती अपि शक्ति भवतु नाम तथापि वयं भयभीताः न भवामः यतोहि तेषु पुरुषेषु तेषु मनुष्येषु या शक्तिः वर्तते सा शक्तिः तेषां स्वस्याः शक्तिः नास्ति स्वस्य शक्तिः नास्ति यतोहि मनुष्ये तादृशसामर्थ्यं नास्ति तत्र ऊर्जायाः निर्माणम् इति मनुष्ये तादृशसामर्थ्यं नास्ति तर्हि शक्तेः निर्माणम् इति मनुष्येषु सामर्थ्यं नास्ति शक्तिः परमात्मना दत्ता तस्य प्रयोगं वयं कुर्मः तावदेव तर्हि यदि परमात्मा शक्तिः परमात्मना शक्तिः न दीयते तर्हि अस्माकं शरीरे शक्तिः एव नास्ति तर्हि यः पापी अस्ति तस्य पार्श्वे या शक्तिः वर्तते सा शक्तिः अपि परमात्मनः उपरि परमात्मानम् आधारीकृत्य वर्तते अतः अन्यं पुरुषं दृष्ट्वा वयं भयभीताः न भवामः अस्माकं मनसि भयं सम्प्रति भयम् इति चेत् केवलं परमात्मानं प्रति एव भयमस्ति परमात्मानं प्रति प्रीतिः अपि अस्ति परमात्मानं प्रति भयमपि अस्ति यतो हि यत्किमपि वयं कुर्मः सः तु पश्यति खलु सः तु साक्षीसत्ता वर्तते अतः यत्किमपि वयं कुर्मः तत्सर्वं सः पश्यति अतः अस्माकं कृति परमात्मानं प्रति भयमपि भवेत् प्रीतिः अपि भवेत् भक्तिः अपि भवेत् यतो हि यदि वयम् अनिष्टं कार्यं कुर्मः तदानीं परमात्मा दृष्टः भवति दृष्टः भवति तर्हि तस्य मनसि दुःखं भवति परमात्मनः मनसि दुःखं भवति तर्हि यदि वयम् अनिष्टं कर्म कुर्मः तदानीम् अस्माकं मनसि तु लज्जा अवश्यं भवति भयमपि भवति यदि अनिष्टं कर्म कुर्मः तदानीं भयं भवति ओ केनचित् दृष्टं वा केनचित् दृष्टं वा इति तत्र तु परमात्मा अवश्यं पश्यति परमात्मा सर्वगुणाधारः वर्तते सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं सर्वस्य प्रभुम् ईशानं सर्वम् आगत्य तिष्ठति सर्वेषु पुरुषेषु मनुष्येषु ये ये गुणाः सन्ति अस्माकं यानि इन्द्रियाणि सन्ति तैः इन्द्रियाणि त्रैः इन्द्रियैः तत्र कश्चन गुणस्य कस्यचित् गुणस्य ग्रहणं भवति खलु शब्दरूपस्पर्शदस स्कन्द इत्येषां एतेषां ते गुणानां ग्रहणं भवति इन्द्रियैः तादृशगुणानां ग्रहणं तादृशगुणाः प्रकाशन्ते किमर्थं कथम् इति चेत् परमात्मनः अनुग्रहेण एव एते गुणाः प्रकाशन्ते तदर्थम् अस्माकम् इन्द्रियाणि ग्रहणं कर्तुं शक्नुवन्ति परमात्मा सर्वेन्द्रियविभजितः परमात्मनः तु इन्द्रियाणि न सन्ति तथापि एतेषां सर्वेषां गुणानाम् आधारः सः परमात्मा एव सः सर्वस्य ईशः प्रभुः वर्तते सर्वम् आवृत्य सः इष्टति। वयं यं गुणं वा भवतु नाम यस्य संस्पर्शे वयं तर्हि वयम् एतादृशगुणानां संस्पर्शे साक्षात् न आगच्छामः केवलं गुणानां प्रतिबिम्बस्य संस्पर्शे वयम् आगच्छ त्रये यदि तत्र अत्र तत्र मम पुरतः एकं पुस्तकं वर्तते पुस्तके रूपं वर्तते तादृशरूपस्य ग्रहणशक्तिः मम इन्द्रिये इन्द्रिये वर्तते मम चक्षुरिन्द्रिये वर्तते तर्हि तत्र पुस्तके यद् यः गुणः वर्तते रूपम् इति गुणः तादृशगुणस्य आधारः परमात्मा एव खलु तस्य तादृशगुणस्य आधारः परमात्मा अस्माकं गुणस्य केवलम् अवभासः एव वर्तते तर्हि अन्ततो गत्वा वास्तविकः गुणः कः इति वयं न जानीमः यतोहि अस्माकं पार्श्वे गुणाः सन्ति गुणस्य गुणानाम् अधिष्ठानं तु परमात्मा एव तर्हि कस्यचित् विषये वयं किमपि इच्छामः अथवा अस्माकं मनसि किमपि चिन्तनमस्ति अथवा किमपि चिन्तनं नास्ति तत् सर्वं तत्तु सर्वं तु परमात्मनः शक्तेः द्वारा एव भवति अस्पकं मस्तिष्क तादृश साम्यमस्त अस्क मस्तिष्क मस्तिष्क बहु लघु वर्तु तोक बहुत नस्क साल बहुत कवु चिंतिक तेषु या या चिन्तनशक्तिः अस्ति ता तादृशशक्तिः तु तेषामेव अस्ति परमात्मनः नास्ति परमात्मा इति सत्ता एव नास्ति इति ते वदन्ति बहिः एवं वदन्ति उच्चैः वदन्ति वयं तु नास्तिकाः परमात्मा अस्तीति न अङ्गीक्रिय अस्माभिः न अङ्गीक्रिय अङ्गीक्रियते इति वदन्ति परन्तु यदा आपत्काले तेपि अपि मनसि चिन्तयन्ति ये परमात्मा कुत्र अस्ति भवान् मम रक्षा मम mm. रक्षां करोतु इति ते अपि चिन्तयन्ति एतावता ते किम् उक् परमात्मा नास्ति इति परन्तु यदा यदा विपदि विपत् विपत्काले ते अपि चिन्तयन्ति परमात्मा रक्षां करोतु शमस्व इति एवं ते प्रार्थयन्ति खलु तर्हि अत्र धर्ती तत्र भूमिः भूमिः अस्ति खलु भूमिः भूमेः नामकरणमस्ति सर्वं सः सर्वं सः पृथ्वी इति यदा वदामः सर्वं सः तर्हि भूमेः तत्र बहूनि नामानि सन्ति भूः भूमिः धरा धरित्री सर्वं वसुमती गोत्रा कुः पृथिवी पृथ्वी क्षमा एवं रीत्या इति महि इत्येवं रीत्या भूमेः बहूनि नामकरणानि सन्ति तेषु एक एकं नाम वर्तते सर्वं सह सर्वम सहते सर्वम सहते भूमिः सर्वं भूमेः सर्वं सहते इति तत्र भूमौ वयं बहु किमपि कुर्मः यत्किमपि वयं कुर्मः वयं क्रुद्धाः तत्र भूमौ मलपूत्रत्यागं कुर्मः तथापि भूमिः न रुष्टा सर्वं सहते वयं परमात्मानं प्रति अभिचारं कुर्मः कुतर्कं कुर्मः परमात्मा सर्वं सर्वं सहते अतः एव तत्र भूमेः सर्वं सहा इति नामकरणमस्ति सहनशक्ति तादृशसहन सहनशक्तिः अस्ति भूमौ तादृशसहनशक्ति भूमौ कथं आगता इति चेत् परमात्मातः एव सा आगता तर्हि अत्र वयं सर्वे साधकाः स्मः अतः अस्मासु अपि एतादृशसहनशक्तिः भवेत् यदि केन केनचित् किमपि उक्तं तेन झटिति अस्माकं क्रोधः आयाति चेत् तर्हि सहनशक्तिः नास्ति सहनशक्तिः भवेत् तदर्थम् अन्यायस्य विरोधे वयं किमपि न कुर्मः इति नास्ति अन्यायस्य विरोधे वयं कार्यं कुर्मः अवश्यं कुर्मः परन्तु केनचित् किमपि उक्तं तर्हि झटिति अस्माकं मनसि क्रोधः न आगच्छेत् सः न शक्तिः भवेत् परमात्मा कदा दण्डयति इत्युक्ते कोऽपि पुरुषः परमात्मनः विरोधे कूतर्कं करोति अथवा पमन विषे विरोधे सह वद अब्यूज कौती पर तदनी पर दंडम न ददा परु ये मनुष्य सृष्टि विरोधे कार्य कौती तदनीमे पर सृष्टे रक्षा आया तदीन पर नहते यदि वरन विरोधे कि वह वाला अथवा कि तदानीं तु सः दृष्टः न भवति यदि सृष्टेः विरोधे वयं कार्यं कुर्मः तदानीमेव सः बहु दुष्टः भवति तर्हि लोके जनाः वदन्ति यद् सृष्टेः नाशः भवति अद्य भवति श्वः भवति इति एवं रीत्या जनाः वदन्ति अस्ट्रालजस् वदन्ति ज्योतिश्शास्त्रे अपि ते वदन्ति सृष्टेः नाशः दिने भवति परन्तु तथा नास्ति सूर्यस्य सूर्यचक्रे सूर्यस्य यः तापः अस्ति सः तापः नश्यति इत्येवं विद्यजनाः वदन्ति वस्तुतः तथा नास्ति तत्र सोलार् सिस्टमिल् अण्डो थर्मल् इति इत्येवं वदन्ति परन्तु वस्तुतः किम् अस्ति इति चेत् परमात्मनः सृष्टिः स्वस्य स्वाभाविकनियमानुसारं चलति तस्याः अन्तः न भवति सृष्टेः अन्तः न भवति सूर्यचक्रे सूर्य ताप है चिंता किमर् लोके ये या साधका सी तम यशक्ति अति शाप यहाप अस्पन सूर्य अग्रे ग अत ृष्टेः नाशः भवति इति कदापि नास्ति अतः अस्माकं चिन्तायाः विषयः नास्ति यद्यपि जनाः एवं ज्योतिषशास्त्रज्ञः एवं वदन्ति यत् सृष्टेः नाशः भवति इति तर्हि तत्र एटम् बाम्ब् इति अस्ति खलु आटम् बाम्ब् इत्यस्मिन् अपि सामर्थ्यं नास्ति मानवसभ्यतायाः नाश नाशार्थम् अतः अस्माकं चिन्तायाः विषयः नास्ति अस्माकं कर्तव्यं किम् अस्ता अस्ता न्यु अनस्ट साधना करनी जनसेवा करनी आनंदन साधना करनी करीं कह चेक मनवि यत्र सर्वे मिलित्वा वसन्ति तर्हि मिलित्वा वसन्ति तर्हि आध्यात्मिकजीवने अग्रगतिः अपि अवश्यं भवति इति तदेव अस्माकं कर्तव्यमस्ति मनुष्यः यदि आध्यात्मिकम् आध्यात्मिकसाधनां न करोति तर्हि निश्चितेन निश्चयेन तर्हि निश्चयेन तस्य अधोगतिः अवश्यमेव भवति अतः अत्र प्रतिसञ्चर्धारायां दशवादनात् द्वादशवादनपर्यन्तं गमनार्थम् अस्माभिः साधना अवश्यं करणीया जनसेवा अपि करणीया जनसेवां कुर्मः चेत् अस्माकं मनः स्वच्छं भवति निर्मलं भवति अस्ति तर्हि अद्य एतावता कोपि किमपि वक्तुमिच्छति वा तर्हि इदानीम् अस्माकं विषयः अस्ति अस्माकं करपत्रे साधनायाः आवश्यकता इति विषयः अस्ति अस्माभिः दृष्टं प्रतिसञ्चारधारायां सूक्ष्मप्रति गमनार्थं साधना आवश्यकी अस्ति तर्हि अत्र वस्तुतः मार्गद्वयं वर्तते मार्गद्वयं वर्तते अत्र सृष्टिचक्रे एकः मार्गः परमात्मानं प्रति वर्तते अन्यः मार्गः स्थूलतत्वं प्रति वर्तते सृष्टिचक्रे अस्माभिः दृष्टं द्वादशवादने शुद्धपुरुषः अस्ति षड्वादने क्षितितत्त्वं वर्तते स्थितितत्त्वम् अन्यत् किमपि नास्ति पुरुषः एव अस्ति पुरुषः यः वन्दने वर्तते तदेव तत्र इति वदामः तत्र विपरीतदिशि वयं द्वादशवादने शुद्धपुरुषः वर्तते यः वन्दने नास्ति यः वन्धनात् मुक्तः वर्तते इति एवं रीत्या अस्माकं मार्गद्वयं वर्तते एकं तु पुरुषं प्रति गमनम् अन्यः मार्गः स्थूलं प्रति गमनं, प्रति गमनं। यदा पुरुषः सम्पूर्णरीत्या प्रकृतेः वन्धने भवति तदानीं तत्र क्षितितत्त्वं भवति यदा मनः स्थूलविषयेषु आसक्तं वर्तते तदानीं क्षितितत्त्वं प्रति गमनं भवति यदा मनसि यः विषयः सः सूक्ष्मः विषयः अस्ति परमात्मनः चिन्तनं वर्तते तदानीं मनः द्वादशवादनपर्यन्तं गमनं भवति तर्हि अस्माकं गमनं द्वादशवादनं प्रति अस्ति वा अथवा षड्वादन षड्वादनं प्रति अस्ति वा इति वास्तविकः प्रश् वास्तविकः प्रश्नः अस्ति यदि कस्मिन् कस्मिंश्चित् पुरुषे मनुष्ये चैतन्यस्य प्रतिबिम्बः अधिकः अस्ति मनसि तदानीं तस्य अग्रगतिः अवश्यं भवति अन्येषु ये जीवाः प्रारम्भिकस्तरेः प्रारम्भिकस्तरे भवन्ति तेषां तु मनः विकसितं नास्ति तेषां मनसि महत्तत्त्वम् अहं तत्त्वम् इति विकसितरूपेण नास्ति तर्हि तेषां यदि वयम् एककोषः जीवः यः अस्ति तं पश्यामः चेत् तस्मिन् केवलं चित्तमेव वर्तते अहं तत्त्वं नास्ति महत्तत्वमपि नास्ति महत्तत्वम् तत्त्वं द्वयमपि सुश्रुत अवस्थायाम् अस्ति यदि इतोपि विकसितः जीवाः ये सन्ति जीवा तेषु चैतन्यस्य प्रतिबिम्बः मनसि भवति अतः तेषाम् अग्रगतिं प्राप्तुं सामर्थ्यं वर्तते यथा बहुवारं चिन्तितं यत् बहिः किञ्चित् जलतडागः अस्ति तत्र चन्द्रस्य प्रतिबिम्बः जले दृश्यते यदि जलं स्वच्छं भवति यदि जल जले मलिनाः सन्ति तदानीं चन्द्रस्य प्रतिबिम्बः न दृश्यते एवं यदा अस्माकं मनः सम्पूर्णतया विकसितं तर्हि तस्मिन् मनसि अहं तत्त्वं महत्तत्त्वं चित्तम् इति एते एतेषां त्रयाणाम् अंशानामपि सम्पूर्ण पूर्णता वर्तते सम्पूर्णरीत्या एते एते वर्तन्ते तेषु सामर्थ्यमस्ति चैतन्यस्य प्रतिबिम्बं संपूर्णतया प्राप्तुं तर्हि मनुष्यः तादृशः वर्तते यदि मनुष्यस्य मनः स्थूलविषयेषु आसक्तं वर्तते तदानीम् अग्रगतिः न भवति परन्तु मनुष्येषु स्वतंत्र इच्छा वर्तते इति अजि स्वतन्त्र इच्छा वर्तते इति कृत्वा कदापि तेषु सामर्थ्यं वर्तते अग्रगतिं प्राप्तुं यदि तेषां मनसि सूर्योदयः जायते ते अवगच्छन्ति यद् मम जीवनस्य लक्ष्यं किं तदानीं तेषां या दिशि वर्तते या दिक् वर्तते तस्याः दिशिनपरिवर्तनं भवितुमर्हति ये अन्ये जीवाः सन्ति पशु तेषु यथा यदा एता तत्र मूषकः तस्मिन् तु सा सामर्थ्यं नास्ति अनन्तस्य चिन्तनस्य सामर्थ्यं तस्मिन् नास्ति तस्मिन् तादृश आसक्तिः अपि नास्ति यतोहि तस्य मनः सम्पूर्णतया न विकसितं चैतन्यस्य प्रतिबिम्बं प्रकटयितुं तस्य मनः न वर्धितं तर्हि तस्य तस्मिन् मनसि चैतन्यस्य प्रतिबिम्बः यता जले चन्द्रस्य प्रतिबिम्बः भवति तद्वत् तत्र न भवति परन्तु मनुष्येषु तादृशसामर्थ्यं वर्तते तर्हि मनुष्येषु मन मनुष्यस्य मनः स्वच्छं वर्तते चेत् चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवितुम् अर्हति इति एव भेदः वर्तते अन्येषु जीवेषु सामर्थ्यं नास्ति मनुष्येषु सामर्थ्यं वर्तते चैतन्यस्य प्रतिबिम्बं स्पष्टतया प्रतिपादयितुं प्रकटयितुम् परन्तु मनुष्यः यः कर्मसु मनुष्यः यदा व्यस्तः भवति तदानीं मनः वन्दने भवति प्रकृतेः वन्दने भवति तदानीं चित्तं तादृशस्थूलवस्तूनाम् आकारं स्वीकरोति तर्हि तदानीं तादृशमनसि सामर्थ्यं नास्ति इदानीं सम्पूर्ण सम्पूर्णतया चैतन्यस्य प्रतिबिम्बं प्रकटयितुं सामर्थ्यं नास्ति तर्हि यदि मन यदि इतोपि मनः पशुव्यवहारे व्यस्तं वर्तते तदानीं तादृशमनुष्यं प्रति वयं परमात्मनः विषये वयं वदामः तदानीं तेषु ग्रहणसामर्थ्यं नास्ति यद्यपि भाषा ते भाषां ते अवगच्छन्ति परन्तु यद् यद वदामः तस्य अवगमनं नास्ति तेषां मनसि खलु अतः यद्यपि तेषां सामर्थ्यं वर्तते परन्तु तेषाम् अन्तःचक्षुः न उद्घाटितं अतः तत्र ते ते तैः प्रयासः करणीयः सङ्घर्षः करणीयः अस्मिन् लोके ये जनाः सन्ति तेषु सामर्थ्यं वर्तते परन्तु तेन न अगच्छन्ति तेषाम् आध्यात्मिकविषये तेषां किमपि चिन्तनं नास्ति इच्छा अपि नास्ति तर्हि अत्र साधना इति ता पद्ध इति काचित् पद्धतिः वर्तते तया पद्धत्या मनः नि मनः निग्रहितं भवति संसारात् एकाग्रतया परमात्मनः चिन्तनं भवति साधनायां तत्र पद्धतिः वर्तते यदि मनः परमात्मनः भावनां स्वीकरोति तर्हि मनः तद्वद् भवति यदि मनः स्थूलविषयेषु आकृष्टं भवति तदानीं मनः तद्वद् भवति मनः स्थूलं भवति साधनायां व्यस्तं चेत् तर्हि मनः सूक्ष्मं भवति परमात्मनः चिन्तने तत्र सूक्ष्मं भवति तर्हि यथा वयं चिन्तयामः तद्वत् भवति तर्हि अत्र दिशिद्वयं वर्तते इति मया उक्तं खलु मार्गद्वयं वर्तते इति मया उक्तं तर्हि स्थूलं प्रति गमनं तत्र अविद्यामायाः प्रमुखता सूक्ष्मं प्रति गमनं तत्र विद्यामायाः प्रमुखता तर्हि तत्र अनुचैतन्यस्य प्रकृतिबन्धनात् मुक्तिः प्राप्तव्या तदानीं साधना करणीया तर्हि यावत्पर्यन्तं प्रकृतेः बन्धने भवति मनः तावत्पर्यन्तम् अग्रगतिः न भवति साधना साधनया एव प्रकृतेः बन्धनस्य न्यूनीकरणं भवति इति एतावता अस्माभिः दृष्टमासीत् इदानीं किञ्चित् अग्रे गच्छामः साधना इत्य इत, साधना अन्तर्ज्ञानात्मकः अभ्यासः इत्युक्ते अनन्तप्रकृतेः विरोधे युद्धं कृत्वा युद्धे विजयं प्राप्य प्रकृतेः वशीकरणात् मुक्तिः प्रकृतिः एकम् अद्वितीयं बलम् अस्ति सा प्रकृति सर्वप्राकृतिकघटनाम् अपि नियन्त्रयति अतः साधना अथवा अन्तर्ज्ञानात्मक अभ्यासः इत्युक्तौ सर्वनियन्त्र नियन्त्रिकायाः अद्वितीयाः शक्तेः प्रकृतेः उपरि प्रभुत्वस्य प्रापणम् प्रकृतेः पुरुषौ प्रकृतिपुरुषौ अवच्छिन्नौ इति पूर्वं दृष्टम् युद्धात् पूर्व पुर नि प्रकृति आसी युद्ध साजिता सती पुष्प आगछति साधनाभ्या अद्वितिया शक्ति प्रकृते है, स्वामी प्रकृति विरुद्ध युद्ध विजय कारण प्रकृतिः पुरुषे कमपि प्रभावं जनयितुम् असमर्था भवति साधनायाः अथवा साधनाभ्यासेन पञ्च अपरमित्य अपरिमितायाः अलौकिकशक्तेः कर ग्रहणं करोति अस्तु भगिनी उपरि दर्शयतु अस्तु साधना इति वयं जानीमः इति अस्ति अस्माकम् एक साधनम् अस्ति अनेन वयम् अन्तर्मुख भवामः अपि आध्यात्मिकप्रकृतिः भवेत् जीवब्रह्म ऐक्यं भवितुं शक्नोति या साधना अस्ति इति भवति प्र प्रकृतेः प्रकृतिः प्रकृति अस् यत् अस्ति त्रिगुणात्मिकप्रकृतिः अस्ति अस्माभिः प्रकृतिगुणान् वश् वयं बहिः आकर्षत् बह भवामः भा, वस्तूनि लोके ये विषयात् तेषां प्रति आकर्षणं भवति तस्य विरोधकर कर्तव्यम् इति साधनाया प्रथम सोपानं भवति इन्द्रियाणा इन्द्रियाणां निग्रहणं करणीयं इति यद्विरोध इति यदि इन्द्रियाणां विग्रह निग्रहणं करोमि प्रथम युद्धम् अस्ति अस्माकं तत् विजयं प्राप्तुम् प्रापणी प्रापणीयम् इति भवति मनः इन्द्रियाणां निग्रहं करोति इति इन्द्रियाणां वशीकरणं भवति यदि भवति तदा अस्माकम् आध्यात्मिकबलम् अपि वर्धते यदि इति बलं वर्धते तदानीम् अग्रे प्रगतिः भवति प्राकृतिकघटनामपि नियन्त्रयति किं तत् किमस्ति प्राकृतिकघटना नियन्त्रणम् इति वयं न न इत्युक्ते इत्युक्ते प्रकृते प्रकृतिः अद्वितीया भला अस्ति इत्युक्ते तद् प्रकृतिः सर्वं नियन्त्रयति इति तु तस्य प्राकृतिकः विषय विषयः अस्ति खलु प्रकृतिः प्रकृतेः या शक्तिः व वर्तते अद्वितीया बला अद्वितीयं बलं यद्वर्तते अद्वितीया शक्तिः या वर्तते तया शक्त्या प्रकृतिः सर्वं नियन्त्रयति इति तु प्राकृतिकविषयः अस्ति तदेव प्राकृतिकघट प्रकृति प्रत्येकजीवनस्य प्रकृतिः भिन्ना भवति तद् न न इत्युक्ते प्रकृतेः बन्धने सर्वम् अत्र यत्किमपि सिस्टं वर्तते जगति सर्वं प्रकृतेः बन्धने अस्ति आम् इति प्राकृतिकः विषयः अस्ति प्रकृति उपरि प्रभुत्व प्रापणमिति अस्माभिः इति शब्दशाली वयम शक्तिशाली भवाम, कदा यदा प्रकृतेः इति वयं तस्य उपरि प्रभुत्वम आप्नुमः तदा हि एव भवति भवती, भवती प्रकृतिनियन्त्रं करणीयम् अस्माभिः इति अस्ति युद्धे सा पराजिता सति पुरुषस्य वशे आगच्छति इदानीं पुरुष चैतन्य अथवा पुरुषसाधनाय अभ्यासे इति अहम् अवगच्छामि प्रकृते नियन्त्रणं करणीयम् अपि तस्य सहायेन एव पुरुष पुरुषं प्रति वयम् एकत्वं प्राप्तुं शक्नुमः इति अस्ति न अभ्यासकरणीयं साधनाय किमस्ति कः प्रश्नः भगिनि प्रकृतिविषयः इति अवगमनं मम नास्ति किं प्रकृति, प्रकृति जीव, प्रकृति भिन्ना भवति सृष्टिप्रकृतिः भिन्नम् अस्ति दिन्न दिन्न शक्ति, उन्दा शक्ति उन्दा शक्ति उन्दा न न इति तथा नास्ति प्रकृतिः एका एव भिन्नभिन्नप्रकृतयः न एका एव प्रकृतिः शक्तिः शक्तिः एका उद्भवरूपम् इति वयं तत् भिन्नरूपेण प्रकृतीकरोति इति अस्ति न ना। ना तस्य नामकरणं भिन्नं भिन्नं भवितुम् अर्हति तस्य तस्याः नामकरणं भिन्नं भिन्नम् इत्युक्ते सृष्टेः आदौ कीदृशनामकरणम् अनन्तरं कीदृशनामकरणं तत्र नामकरणे नाम भेदः भवितुमर्हति परन्तु शक्तिः एका एव यथा शिवस्य भिन्न शिवस्य भिन्नभिन्ननामकरणानि सन्ति तथैव शक्तेः अपि भिन्नभिन्ननामकरणानि सन्ति परन्तु शक्तिः एका एव शिवः एकः शक्तिः एका खलु तादृशशक्तेः एव प्रभावः अस्ति सर्वेषु जीवेषु तर्हि अत्र प्रकृतिबन्धनात् मुक्तिः कथम् इति चेत् साधनाद्वारा आध्यात्मिकसाधनाद्वारा एव प्रकृतेः बन्धनात् मुक्तिः इदानीं वदतु बन्धनं भवति कारणकी तमोगुण ताम, रजोगुण कृते इति शतोगुणमपि बन्धनं करोति किन्तु प्रथमं शतोगुण अनीयं अस्माभिः तद् यद् शुद्धतत्त्वं भवति तदानीम् एव अग्रे प्रगतिः भवति न भवति भक्त्या प्रेम ईश्वरप्रति प्रेम लोकसेवा करणीयम् इति अनेन सत्यं सत्यं तदस्ति तदस्ति तर्हि अस्तु तत्र इत्युक्ते तत् अस्ति सत्यम् गुणातीतस्थानम् अस्माभिः प्राप्तव्यं खलु आम् आम् स्थानं प्राप्तव्यम् अतः सत्त्वगुणः अपि बन्धनमेव आं सत्त्वगुणः अपि बन्धनमेव परन्तु सत्त्वगुणस्य सहायेन अस्माकम् अग्रगतिः भवति किञ्चित् स्थलपर्यन्तम् अस्माकम् अग्रगतिः भवति ततः अग्रे परमात्मनः कृपया एव अग्रगतिः भवति समीचीनं भगिनि तर्हि अन्यत्किमपि वक्तव्यं वा तर्हि अत्र अस्मिन् परिचये किमुक्तम् इति चेत् इत्युक्ते सर्वैः जीवैः सङ्घर्षः करणीयः अग्रगतिं प्राप्तुम् इदानीम् एककोशः जीवः अस्ति चेत् सः अपि सङ्घर्षं करोति सङ्घर्षेण एव तस्य अग्रगतिः भवति अग्रिमजन्मी इतोपि मनं लभ्य मनः लभ्यते तर्हि सर्वेषु जीवेषु सङ्घर्षः वर्तते मनुष्यजीवे अपि मनुष्यजीवेषु अपि सङ्घर्षः वर्तते इत्युक्ते सङ्घर्षः कयोः सङ्घर्षः इति चेत् पशुधर्मः मानवधर्मः अनयोः मध्ये सङ्घर्षः ये जनाः साधनां कुर्वन्ति ते तु तत्र सिस्टमेटिक्लि uh, पद्धत्या uh, पशुधर्मस्य विरोधे सङ्घर्षं कुर्वन्ति परमात्मनः भावं स्वीकुर्वन्ति परन्तु ये जीवाः साधनां न कुर्वन्ति तेषु अपि जायते प्रतिदिनं सङ्घर्षः जायते ते सङ्घर्षः ते सङ् सङ्घर्षः अपि तेन अवगच्छन्ति अतः ते सङ्घर्षे ते, संग, ते, ते भागं न स्वीकुर्वन्ति अतः पशुधर्माः सुलभः इति कृत्वा तत्र एव ते गच्छन्ति मनुष्याणाम् अत्र विशेषः कः यस्य मनुष्यशरीरं यस्य मनुष्यशरीरं वर्तते मनुष्यमनः वर्तते तेषु अपि मानवधर्मः तेषु मानवधर्मः अवश्यं वर्तते तेषु पशुधर्मः अपि वर्तते यतोहि ते पशुतः एव ते अग्रगतिं प्राप्तवन्तः अतः पशुधर्मः अपि वर्तते अनयोः मध्ये सङ्घर्षः अस्ति पशुधर्मः अस्माकं परिचितः मार्गः मानवधर्मः अपरिचितः अस्ति अतः अपरिचितमार्गे गमनार्थं मनुष्याणां प्रोत्साहनं नास्ति तेषां प्रवृत्तिः अस्ति पशुधर्मे यतोहि तेषां संस्काराः तथा सन्ति अतः यदा मनुष्यजीवनं लब्धं तदानीं ते संस्कारैः बद्धाः अतः ते पशुजीवने एव तस्य तेषां जीवनं यापयन्ति संस्कारः इत्युक्ते अभुक्तप्रतिक्रिया यत्किमपि वयं कर्म कुर्मः तत् अभुक्तप्रतिक्रिया एव संस्कारः तत्र संस्कार संस्काराणाम् अभिव्यक्तिः भवति पूर्वजन्म जन्मनि ये संस्काराः कृताः पूर्वजन्मनि एव तेषां फलं जायते अथवा अन्येषु जन्मसु तेषां फलं जायते एतेषां सर्वेषां संस्काराणां सङ्ग्रहणं भवति तदनुगुणं जीवाः व्यवहरन्ति तर्हि तत्र मनुष्यजी पशुजीवात् अग्रगतिः जाता चेत् तर्हि तत्र पशुस्वभावः तु वर्तते अतः परिचितमार्गे गमनमेव सुलभम् इति कृत्वा बहवः मनुष्य मनुष्याः एव कुर्वन्ति ते तु सङ्घर्षे भागमेव न स्वीकुर्वन्ति तत्र तेषां तु पशुधर्मः एव पशुधर्मस्य एव जयः भवति खलु ते सम्पूर्णजीवनं पशुधर्मे एव व्यवहारं कुर्वन्ति पशुधर्मः पशुधर्मस्य प्राधान्यं भवति अतः एव वयं द्रष्टुं लोके बहवः जनाः सन्ति ये येषां पाश्वे बहु अधिकं धनं वर्तते इतोपि ते धनं धनसम्पादने एव तेषां समयस्य समयस्य उपयोगं कुर्वन्ति खलु समयस्य प्रयोगं कुर्वन्ति तर्हि इत्युक्ते भोजने आ, मधुपाने इत्यादिषु स्थूलविषयेषु तेषां व्यवहारः भवति तदानीं तत्र पशुधर्मस्य जयः भवति अतः ते तु सङ्घर्षे भागमेव न स्वीकुर्वन्ति ते उत्थाय अग्रगतिं प्राप्तुं प्रयासं न कुर्वन्ति परन्तु ये जनाः मानवधर्मः कः इति अवगच्छन्ति ये सङ्घर्षे सङ्घर्षं कर्तुं सिद्धाः सन्ति तेषां तु सङ्घर्षः अवश्यं भवति पशुधर्ममानवधर्मयोः मध्ये सङ्घर्षः भवति एकदृशसर्ष कथ क्रिय हैे साधना साधनया साधना अंगा ये तैयारी संगर्ष क्रिय है अतमें यता चर्चित सात्विकहार आसना अनत साधना एक निर्जल उपवास है जीवन से ये अंश सी त्यवहारे वर्ष संगर्षण कूम खलु हा यदि वयं केवलं स्थूलविषयेषु व्यवहारं कुर्मः तदानीं तत्र अस्माकम् अग्रगतिः न भवति साधना इत्युक्ते केवलं पद्मासने उपविश्य यद्वयं कुर्मः तद् केवलं तद् तत्र साधना अङ्गानि सर्वाणि मिलित्वा तदानीमेव प्रकृतेः विरोधे युद्धः भवति युद्धे अस्माकं जयः भवति युद्धे प्रकृतेहे वन्दनात् मुक्तिः भवति तदर्थम अस्माभिः सङ्घर्षे प्रयासं करणीयं छन्दशे प्रयासः करणीयं खलु तदानीमेव शिष्यचक्रे प्रतिसञ्चर्धारायाम् अग्रगतिः भवति तदानीं विद्यामायायाः सहायं लभ्यते नो चेत् पशुजीवने एव व्यवहारं कुर्मः तदानीम् मा अविद्यामायाः सह सहायेन अधोगतिः एव भवति परमात्मा अपि इच्छति यद् अस्माकं जयः भवतु इति तदर्थमेव तस्य रचनायां प्रकृतिः नित्यनिवृत्ता भवति प्रतिसञ्चरधारायां पुरुषस्य लीलायां प्रकृतिः कथं व्यवहर्तव्यं प्रतिसञ्चरधारायाम् इति चेत् प्रकृतिः नित्यनिवृत्ता भवति अतः तत्र बै डिसैन् प्रकृति स्रोलि वेञ्ज् अतः अस्माकं साहाय्यम् अवश्यम् अस्ति एकवारं द्विवारं वयम् अग्रे भूमौ वयं, वयं पठामः परन्तु पुनः उत्थाय तत्र प्रयासः करणीयः साधना विषयः सुलभः नास्ति परन्तु अस्माभिः प्रयासः अवश्यं करणीयः प्रयासः क्रियते चेत् अवश्यं जयः लभ्यते परमात्मा इच्छति अस्माकं जयः भवतु इति यदि वयं प्रयासं कुर्मः तदानीं सः अवश्यम् आयाति अस्माकं सहायं कर्तुं परन्तु अस्माकं मनसि तादृशदृढविश्वासः भवेत् पलिष्यति इति विश्वासः भवेत् यदि विश्वासः अस्ति तदानीम् अवश्यम् अग्रगतिः अवश्यमेव भवति तर्हि साधनायां तत्र अलौकिकशक्तिः अपि लभ्यते तर्हि तद् तर कथम् इति तस्य विषये अग्रे वयं पश्यामः तत्र सुचित्रापद्नि पठति वा साधना अलौकिकशक्तिं जनयति तस्याः शक्तेः उचितः साधुः च उपयोगः कः इति निर्णेतव्यं ब्रह्मणः परमपदं निर्गुणब्रह्म अस्ति निर्गुणब्रह्मणि यद्यपि प्रकृतिपुरुषौ च मिलि मिलितौ भवतः तथापि पुरुषः चैतन्यम् अधिकप्रमुखः इति कृत्वा प्रकृतिः पुरुषं गुणान्वितं असमर्था अस्ति प्रकृतिः निर्गुणब्रह्मा निर्गुणब्रह्मावस्थायां दुर्बलतरा अतः पुरुषेण चेतनया चालयितुं शक्यते स्म प्रकृतिः निर्गुणब्रह्मावस्थायां दुर्बलतरा अतः पुरुषेण चालयितुं युषे पुषा प्रकृते उपरी तस् प्रभु कर्म शक्नो स्म तथा पुषा चैतन्य कौती चैतन्य चैतन्य उपरी प्रकृते प्रभाव अभाव पुषे प्रकृते उपरी प्रभु न उत्प्य चैतन्ये एतादृशी इच्छा प्रकृतिप्रभावेण एव उत्पद्यते परन्तु एतादृशी इच्छा तदैव सम्भवति यदा चैतन्यं प्रकृतितः दुर्बलकरं भवति अतः प्रकृतेः उपरि पुरुषे प्रभुत्वस्य इच्छा अपि केवलं चैतन्यस्य दुर्बलतायाः कारणेन उत्पद्यते तदा पुरुषः प्रकृतिप्रभावे आगच्छति पुरुषः च प्रभुत्वं कर्तुम् असमर्थः भवति चैतन्यं पुरुषः चैतन्यम् एवं प्रकृतेः उपरि प्रभुत्वं कर्तुं कदापि न शक्नोति अनुचैतन्यं प्रकृतिबन्धनतः क्रमेण मुक्तिं प्राप्नोति साधनया प्रकृतेः उपरि प्रभुत्वात् पुरुषे या शक्त्या या यः जायन्ते तेषां शक्तेः प्रयोगेण प्रकृतेः प्रभावस्य पुनः आमन्त्रणं भवति प्रकृतेः गुणप्रभावः एव शक्तिप्रयोगस्य इच्छां जनयति अतः एतां शक्तिं प्रयोक्तुम् इच्छया अथवा वास्तविकतया शक्तेः प्रयोगेण कश्चन वेत्साय प्रकृतिवशं प्राप्नोति अस्य एव एवमस्ति यत् साधनयाः सहाय्येन प्रकृतेः उपरि विजयप्रापणस्य सर्वे प्रयत्नाः प्रकृतिवसं गत्वा विफलाः भवन्ति तादृशव्यक्तेः मुक्तिः नास्ति एवं प्रकृतिहे प्रभावात् कश्चन कदापि मुक्तिं प्राप्तुं न शक्यते अत्र यत् यदा वयं साधना कुर्मः तदा कश्चन आलौकिकशक्तिः अपि अस्माकं समीपे आगच्छति परन्तु तत् शक्तेः प्रयोगः कीदृशः भवति तत् शक्तेः प्रयोगः कथं करणीयं तत् चिन्तनीयं भवति यद्वयं जानीमः ब्रह्म निर्गुणब्रह्म अस्ति अतः निर्गुणब्रह्मा यः अस्ति तत्र पुरुषप्रकृति प्रकृतिपुरुषो मिलित्वा एव तत्र भवन्ति तत्र प्रकृतेः प्रभावः पुरुषस्य उपरि न भवति अत्र पुरुषस्य अन्यनां चैतन्यम् इति दत्तमस्ति अतः पुरुषः एव तत्र प्रमुखः अस्ति अतः पुरुषं प्रकृते प्रकृतिः अपि अस्ति परन्तु सा पुरुषान् प्रभावयितुं न शक्नोति गुणान्वितं कर्तुं न शक्नोति अतः तत्र एतावता वक्तुं शक्नुमः प्रकृतिः तत्र दुर्बला प्रकृतेः इति प्रकृतेः शक्तेः अभावः नास्ति तत्र परन्तु सा पुरुषं तत्र गुणान्वितं कर्तुं न शक्नोति कुतः इत्युक्ते तत्र पुरुषः पुरुषस्य किमस्ति अनुमतिः नास्ति तत्र कर्तुं प्रकृतेः प्रकृतिः तु शक्तिः तस्याः कदाचित, कदाचित, सा कदाचित् दुर्बला कदाचित् अधिक बलवती एतादृश नास्ति परन्तु पुरुषः तु पुरुषस्य उपरि तत् निर्गुणब्रह्मावस्थायां सा तस्य प्रभावः जनयितुं न शक्नोति कुतः इत्युक्ते तस्मिन् अवस्थायां चैतन्ये तादृशः किं okay, वक्तुं शक्नुमः पुरुषस्य स्थितिः तत्र तत्र पुरुषस्य उपरि किमपि प्रभावः न जनयति अतः पुरुषः तत्र न इच्छति अतः तादृशप्रभावः अपि प्रकृतिः जनयितुं न शक्नोति अग्रे गत्वा केवलं पुरुषप्रभुत्वस्य चैतन्यस्य उपरि प्रकृतेः प्रभावस्य अभावः नास्ति परन्तु पुरुषे अपि तादृश इच्छा नास्ति प्रकृतेः उपरि प्रभुत्वं जनयितुं पुरुषस्य इच्छा न वर्तते एतादृश इच्छा कदा आगच्छति यदा प्रकृतिः पुरुषः प्रकृतिप्रभावेण आगच्छति तस्मिन् समये एव पुरुषस्य इच्छा भवति कदाचित् प्रभुत्वं जनयितुं वशीकर्तुं परन्तु यदा वयं पश्यामः पुरुषे तादृशप्रभुत्वस्व इच्छा आगच्छति चेत् तत्र तत्तु केवलं पुरुषस्य दुर्बल कारणेन एव तत्र तस्मिन् समये सः प्रकृतेः प्रभावे आगच्छति अतः एव तादृशवशीकरणं वशीकरणस्य इच्छा अपि पुरुषे उत्पद्यते परन्तु यदा सह प्रकृतेः प्रभावे आगच्छति तदा सः कथं च प्रकृतिं वशीकर्तुं शक्यते न कर्तुं शक्यते खलु प्रभावे एव तादृश इच्छा जनयति प्रकृतेः प्रभावे अतः चैतन्यः एव अतः पुरुषः अपि प्रकृतेः उपरि कदापि प्रभुत्वं कर्तुं न शक्नोति इदानीं तत् चेत् अणुचैतन्यम् अनुचैतन्यस्य अपि प्रकृतिबन्धनात् क्रमेणः मुक्तिः भवति केन साधनया यदा साधना कृत्वा अग्रगतिः भवति तत्र प्रकृतेः वन्धनस्य क्रमेण तद् मोचनं भवति परन्तु यदा साधनाद्वारा यद् आलौकिकं शक्तिः प्राप्नुमः तस्याः उपयोगं कर्तुं यदा मनसि इच्छा जायते चेत् तत्तु पुनः बन्धनस्य एव आमन्त्रणं भवति प्रकृतेः प्रभावस्य पुनः आमन्त्रणं भवति गुणप्रभावेण एव शक्तिप्रयोगस्य इच्छा भवति अन्यथा तु अस्माकम् इच्छा तु अन्य किमपि वर्तते सर्वस्य परं पुरुषं प्रति समर्पणभावः तत्र पुनः न जनयति तत्र पुनः इच्छा आगच्छति स्वस्य अणुचैतन्यस्य किमस्ति अस्तित्वं जनयितुं तादृशः इच्छा आगच्छति चेत् पुनः तस्य बन्धनस्य एव निमन्त्रणं भवति अतः स्व इच्छा पुनः जनयति तत्र पूर्वं तु साधना यदा कुर्मः तदा सर्वं परमपुरुषस्य एव कृपा इति चिन्तयामः परन्तु यदा शक्तेः आगमने पुनः किमपि सक्तेः प्रयोगं कर्तुम् इच्छामः तस्मिन् समये पुनः एक भिन्न अस्तित्वस्य इच्छा पुनः भवति मनसि तत्र मुक्तिः नास्ति तत्र तत्तु केवलं बन्धनस्य एव रक्षणं भवति अतः यदा शक्तेः प्रयोगम् अस्ति चेत् तत्र परिणामः भवति पुनः बन्धनमेव एतादृशं कृत्वा कदाचित् मुक्तिं प्राप्तुं न शक्नुमः यत् सर्वाणि प्रयत्नानि वयं कृतवन्तः ते पुनः तस्मिन्नेव जाले पतिता भवामः एतादृश इच्छा मनसि जागरिता भवति चेत् तदेव भगिनी हा सम्यक् सम्यक् सनिचरन्तु इत्युक्ते तत्र अयम् आध्यात्मिकमार्गः तत्र जटिलः मार्गः अस्ति इत्युक्ते तत्र अत्र अध्यापिकम् अध्यात्मिकमार्गे अस्माकं प्रयासः कः इति चेत् यः लघु अहम्बोधः अस्ति तस्मात् लघु अहम्बोधः अपूर्णः अस्ति तस्मात् तत्र सूक्ष्म तस्मात् तत्र बृहत् अहं भावं प्रति गमनं तदेव अस्माकं लक्ष्यमस्ति खलु रिमूव् द स्माल् ऐ टु द बिग् ऐ एव अस्माकं लक्ष्यमस्ति तर्हि यदा वयं लघु अहं भावः इति यद् वयं वदामः तत्तु अस्माकं नामकरणमस्ति रामः श्यामः लीला सीता इति यत्किमपि यत्किमपि अस्ति यत्र अस्माकम् अहङ्काराव यदा कदापि वयं अहम् इत्यनेन तस्य एव ग्रहणं वयं कुर्मः तत्र अस्माकं नामकरणं वर्तते तदेव अस्माकं लघु अहं बो तस्मात् क्रमेण अस्माकं भावनायां परिवर्तनं यत्र वयं परमात्मना सह अस्माकं ऐडेण्टिफिकेशन् भवति यदा कस्यचित् साधकस्य मनसि परमात्मानं प्रति प्रीतिभावः जागरितः भवति तदानीं सः स्वस्य पृथक् अस्तित्वं त्यजति तस्य लघु अहं भावः यः अस्ति तस्य त्यागं करोति सामान्यतया जनाः विस्मिताः भवन्ति तस्य लघु अहं भावं स्वीकृत्य ते विस्मिताः भवन्ति तस्य रक्षणार्थमेव ते सर्वदा प्रयासं कुर्वन्ति खलु यदा अस्माकम् अन्तश्चक्षुः उद्घाटितं भवति तदानीं किं भवति इति चेत् ते अवगच्छन्ति यद् जीवनस्य लक्ष्यं किम् इति तदानीं ते तत्र लघु अहं तत्र परमात्मनः भावं स्वीकृत्य अग्रगतिं परमात्मनः सह ऐक्यं प्राप्नुवन्ति खलु जीवने लघुहाम्भावस्य प्राधान्यं नास्ति यतोहि ते जानन्ति तत्र लघुहाम्भावः वस्तुतः बाधा वर्तते इति तर्हि यस्य यस्य मनुष्यस्य मनसि परमात्मनः प्राप्त्यर्थम् इच्छा वर्तते ते तु लघु आम्भावेन तेषां तेषाम् अस्तित्वं न भवति इत्युक्ते दर् ऐडेण्टिफिकेशन् विल् नाट् बि वित् स्माल् ऐट् ते किं गन्तुम् इच्छन्ति इति चेत् मनसः वर्धनं मनसः विकासं कर्तुम् इच्छन्ति ते अपूर्णतातः पूर्णतापर्यन्तं गन्तुं ते इच्छन्ति तर्हि तत्र साधनायाः मार्गे अलौकिकशक्तेः ग्रहणमपि भवति तर्हि यदि अलौकिकशक्तिः प्राप्यते तदानीं तादृशशक्तीनां प्रयोगः न करणीयः तर्हि अलौकिकशक्तिः तुच्छा वर्तते वही तृणम वर्तते तद्वत् वर्तते इति अस्माभिः स्वीकरणीयं यदि अलौकिकशक्तेः प्रयोगं कुर्मः तदानीम् अधोगतिः अवश्यं भवति यदि अलौकिकशक्तेः प्रयोगः भवति तदानीं तत्र लघु अहम्भावस्य वर्धनं भवति यादृशलघु अहम्भावस्य अपगमनार्थम् अस्माभिः प्रयासः कृतः साधनया तर्हि इदानीं पुनः सा तादृशभावः जागृतः भवति तदानीं अग्रगतिः मोक्षः मुक्तिः कदापि न भवितुम् अर्हति अतः तत्र यदा अलौकिकशक्तेः प्रयोगः भवति इत्युक्ते अन्यमनुष्याणां सहायार्थमपि यदि कश्चन पुरुषः प्रयोगं करोति तदानीमपि तस्य अधोगतिः भवति यदा यदा तत्र अलौकिकशक्तेः प्रयोगः भवति तदानीं प्रकृतेः बन्धनं नयाति अहङ्कारः लघुभावः आयाति अहङ्कारः आयाति अहङ्कारः आयाति चेत् तर्हि सर्वं नश्यति इति अस्माभिः स्मर्तव्यम् अतः साधकस्य जीवने अलौकिकशक्तेः विषये शक्तेः स्थानं नास्ति तर्हि अलौकिकशक्तेः ग्रहणं क्रियते चेत् तर्हि परमपुरुषः अस्माकं लक्ष्यम् इति सः साधकः विस्मृतवान् अतः एव अलौकिकशक्तेः ग्रहणं कृतवान् इत्युक्ते अस्माकं गमनं ए टु बि अस्माकं गमनमस्ति तर्हि मध्ये अन्यमार्गः अस्ति अस्ति चेत् तत्र वयं गच्छामः चेत् तत्र बि कदापि न प्राप्यते एवम् अलौकिकशक्तीनां प्रयोगं कुर्मः चेत् तदानीम् अन्यदिशि वयं गच्छामः तदानीं परमात्मा यत्र वर्तते तत्र न गच्छामः तर्हि अलौकिकशक्तेः प्रयोगेण तत्र किं भवति इति चेत् अहं महान् इति भावः आयाति मम पार्श्वे एतादृशी शक्तिः वर्तते अहं महान् इति यदा भावः आयाति तदानीं तु परमात्मनः प्राप्तिः कदापि न भवति यस्य साधकस्य वास्व वास्तविकसाधकस्य मनसि भक्तिभावः वर्तते तस्य मनसि एतादृशविषयेषु आसक्तिः न भवति तस्य तस्य मनसि लक्ष्यं किम् स्पष्टतया वर्तते अतः सः एतादृशविषयेषु सः आसक्तिं न प्रदर्शयति तर्हि यस्य मनसि भक्तिभावः नास्ति सादृशपुरुषः एव अलौ आलौकिकशक्तेः विषये आकर्षि आकर्षितः भवति अलौकिकशक्तिं प्रति आकर्षितः भवति परन्तु यः वास्तविकः ताडकः अस्ति सः तु एतादृशविषयेषु आसक्तः न भवति परमात्मा अपि निर्गुणावस्थायां प्रकृतेः बन्धने नास्ति प्रकृतेः उपरि स्वामित्वमपि सः न प्रदर्शयति इति यदि प्रकृतेः उपरि स्वामि स्वामित्वं प्रदर्शयति तर्हि तदानीं प्रकृतेः बन्धने आयाति चाह। अतः सः किमपि न करोति निर्गुणावस्थायां सः एतावत् तिष्ठति प्रकृतेः स्वामित्वमपि न करोति एवं मनुष्यः यदा अलौकिकशक्तीनां प्रयोगं कुर्वति करोति तदानीं प्रकृतेः बन्धने आयाति अस्तु इतोपि एकं स्वीकुर्मः सरला भगिनि अस्ति वा भगिनि सर्वला भगिनि हरि ओं श्रूयते अस्तु भगिनि भवती जनाः परप्रशंसां प्राप्तुं साधनातः प्राप्तां शक्तिम् उपयुज्य उपयुज्यन्ते कश्चन स्वस्य अलौकिकशक्तेः प्रदर्शयेत् चेत् अन्ये तस्य प्रशंसाम् आदरं पूजां वा कुर्वन्ति अन्ये तु तं महाभक्तम् साधकम् इति पश्यन्ति एणम् एतदेव कारणम् अस्ति स्वस्य शक्तिप्रदर्शनार्थम् परेभ्यः आदरम् भक्तिश्च आज्ञापयितुम् इच्छा केवलम् अविद्यामायाः वृद्धा अभिमानेन मदे च अस्ति एतादृशानाम् विषयाणां कृते शक्तिप्रयोगः अविद्यामायाः अनुसरणमस्ति अविद्यामायाः अनुसरणेन च अवनतिः भवति अतः कस्यचिदपि अलौकिकशक्तेः प्रयोगेण कश्चन अविद्यामायाः वशे आयाति अनेन अनिवार्यतया पतनम् अवनतिं च जायते तत्र दत्तमस्ति यद किमर्थं जनाः एतादृश तेषाम् आसक्तिः वर्तते अलौकिकशक्तिम् उपयोगं कर्तुम् इत्युक्ते तेषां मनसि आसक्तिः अस्ति प्रशंसा प्राप्तुं प्रश् यदा ते तेषां ते शक्तेः प्र, प्रयोगं कुर्वन्ति तदा जनाः तेषां महाभक्तः साधकः एतादृशनामानि दत्वा तेषाम् आदरं वा पूजां वा कुर्वन्ति जने आ, समाजे तेषां किमपि मानसन्मानम् इति ते, ते प्राप्नुवन्ति अतः ते तदेव ते इच्छन्ति तदेव इच्छा वर्तते किम शक्तिप्रयोगस्य शक्तिप्रयोगं कर्तुम् अन्य किमपि तत्र इच्छा न केवलं तु अन्य समाजे मानसन्मान वा आदरं वा एतादृश अन्यथा तु ते किमपि जनानां प्रदर्शयितुम् इच्छन्ति अतः यदा एतादृशः शक्तिप्रयोगं कृत्वा अन्येषां प्रशंसावचनं श्रोतुं मनसि इच्छा वर्तते चेत् तद् अस्ति केवलम् अविद्यामायाः प्रभावः अतः एव तादृशः अभिमानं वा ता मदः बन्धनं पुनः मनसि जायते एतादृशां विषयाणां कृते यत्र कुत्रापि एतादृशप्रदर्शन शक्तिप्रदर्शनस्य प्रसङ्गः अस्ति चेत् तत्र तु जानीमः तत् अविद्यमायायाः ते तत्र अविद्यमायाः अनुसरणमेव अस्ति न तु विद्यमायायाः अविद्यमायाः अनुसरणम् अस्ति चेत् जानीमः अग्रगतिः कदाचित् भवितुं न अर्हति अतः तत्र अवनतिः अपि भवति तेन निश्चय निश्चयेन तत्र पतनमेव जायते न तु उन्नते तदेव इति इत्युक्ते यः साधकः अस्ति तस्य जीवने लघु अहम्भावः वस्तुतः बाधा लघु अहम्भावः यः वर्तते सः बाधा वर्तते अग्रगतिं प्राप्तुं यतोहि लघु लघु भावः तस्य लक्ष्यं नास्ति तर्हि ते अवगच्छन्ति यत् तेषु बृहत् अहम्भावः वर्तते अहं ब्रह्मा अस्मि इति भावः वर्तते तेषाम् ऐक्यं परमात्मना सह भवेत् इति ते अवगच्छन्ति अतः ल लघु अहम्भावः आकर्षितः न भवति ते लघु अहम्भावे ते आसक्तिं त्यजन्ति खलु यतोहि तेषां पार्श्वे इतोपि सम्यक् किमपि लब्धं वर्तते अतः ते बृहत् भावस्य प्रापणार्थं ते तत्र एव तत्र किम् अवधानं ददति ते जनाः ये साधकाः सन्ति यदा तेषाम् अग्रगतिः भवति अग्रगतिद्वारा तेषाम् अलौकिकशक्तिः तैः अलौकिकशक्तिः लभ्यते तदानीं तत्र ते जागरूकाः भवेयुः किमर्थं चेत् ये एते एताः शक्तयः वस्तुतः बाधकाः सन्ति बाधकाः सन्ति यदि ते किञ्चिदपि आकर्षिताः भवन्ति शक्तिं प्रति तदानीं तत्र परमात्मानं प्रति प्रीतिः नास्ति इत्येव अर्थः अस्ति यदा शक्तिं प्रति आकर्षणम् अस्ति तदानीं तेषु भक्तिभावः दृढतया नास्ति इत्येव अर्थः अस्ति तर्हि भक्तिभावः दृढतया नास्ति चेत् अवनतिः तु अवश्यमेव भवति तदानीं तत्र शक्तेः प्रयोगं कुर्वन्ति शक्तेः प्रयोगं कुर्वन्ति चेत् तदानीं तेषां मनः पतति मनसः अधोगतिः अवश्यमेव भवति झटिति एव भवति अतः अयं मार्गः बहु अस्माभिः जागरु जागरूकतया जागर अस्माभिः गन्तव्यम् अस्मिन् मार्गे खलु यदि मनसि प्रीतिभावः नास्ति चेत् तदानीं पतनम् अवश्यं भवति यदि मनसि दृढतया प्रीतिभावः अस्ति परमात्मानं प्रति तदानीं तत्र शक्तेः शक्तेः प्रयोगं न कुर्वन्ति किमर्थं जनाः शक्तेः प्रयोगं कुर्वन्ति इति चेत् यतोहि ते प्रदर्शयितुम् इच्छन्ति यद् ते महान् ते महान्तः सन्ति तेषां पार्श्वे शक्तिः अस्ति अन्ये अन्ये जनाः तेषाम् आदरं कुर्वन्ति इति एतत् ते प्रदर्शयितुम् इच्छन्ति इत्युक्ते तत् अहङ्कारस्य प्रदर्शनमेव खलु इदा आङ्कारस्य प्रदर्शनं भवति तदानीं प्रकृतेः बन्धने आगच्छन्ति प्रकृतिबन्धनात् मुक्तिः लक्ष्यम् इति चेत् तर्हि शक्तेः प्रयोगं तेन कुर्वन्ति अतः अस्माभिः जागरू जागरूकतया अग्रे गन्तव्यम् इति अत्र दत्तमस्ति तर्हि कोऽपि प्रश्नः अपि तत्र एकः प्रश्नः अस्ति आम् <laughs> शक्तेः प्रयोगं प्रदर्शनार्थं न कुर्मः परन्तु कदाचित् समाजे जनाः भवन्ति अपि जनानां किमस्ति कारण किमपि कारणं रहित्वा तेषां प्रशंसा चाटुवचनं द्वारा कुर्वन् सन्ति तेनापि साधकस्य कदाचित् अहङ्कारः भावः जनयति खलु तत्रापि अहङ्कारभावः जायते साधकस्य तत् साधकः तत्र किं कर्तवान् सः चिन्तयति किमर्थं ते मम प्रशंसां कुर्वन्ति अहं तु तत् श्रोतुं न परन्तु पुनः पुनः यदा साधकः तु यस्मिन् जगति एव भवति अतः ते वदन्ति भवान् भवती तु बहु सम्यक्रीत्या नियन्त्रणं मनसि अतः इदानीं भवत्याः कृते समस्या नास्ति एतादृशं यदा जनाः वदन्ति तदा मनसि एकः भावः आयति एतादृशजनानां समीपे न गन्तव्यं परन्तु जगति जीवामः चेत् पुनः तु मेलनं भवति एव कथञ्चित् साधकस्य तत्र साधकः किं करवाणि तत्र तस् तादृशवाक्येन अहं भावः मनसि आयातु अथवा कदाचित् न्यूनीभावः अपि न भवतु अहं तु किमपि न तादृशं कथञ्चित् साधकस्य तत्र बेलेन्स् कर्तुं शक्यतेनः प्रश्नः भगिनी सनिचिनः प्रश्नः तत्र यः साधकः अस्ति सः ब्रह्मचर्यभावे भवति खलु प्रतिक्षणं तर्हि एतादृशप्रशंसा यदा भवति तदपि मम नास्ति परमात्मनः अस्ति इति प्रमा परमात्मनि समर्पयति अतः ब्रह्मभावं यदा स्वीकरोति तर्हि सः स्वस्य कृते करोति अतः यदि अन्यजनाः अन्यजनाः किमपि वदन्ति तदपि मम तदपि परमात्मनः कृते एव ब्रह्मचर्यभावस्य प्रयोगं करोति तावदेव तस्मिन् अव तस्याम् अवस्थायाम् अपि ब्रह्मचर्यस्य भावम् स्वीकरोति तद् मया यद् कृतं तस्य कृते प्रशंसा नास्ति मया तु मम किमपि न कृतं यद् मया कृते सर्वं परमात्मनः कृते कृतम् अतः प्रशंसा अपि तस्य एव इति एतादृशभावं यदा स्वीकरोति तदानीं तत्र अतः मधुविद्यायाः प्रयोगः करणीयः इति एव तत्र उत्तरं सरलरीत्या किं भगिनी तादृशम् इत्युक्ते यतोऽपि वदति एतत् भवती बहु सम्यक् रीत्या कृतवती तत्र सा पुनः उत्तरं दातव्यमस्ति न न एतत् मया किमपि न कृतम् एतत्तु कृष्णकृपया वा यत्किमपि अभवत् परमात्मनः कृपात्मनः कृपा इति एव महोदय वदति यदि अन्यजनाः महोदयं प्रति प्रशंसां कुर्वन्ति तदानीं सः वदति मम इति सः वदति परमात्मनः कृपां कार्यकामं स्वीकुर्मः चेत् इदानीं तत्र अहङ्कारः वदति आम् अन्यथा तु कदाचित् मनसि भीतिः आगच्छति एतादृशजनानां समीपे गच्छामः चेत् ते तु कारणरहिता एव पुनः पुनः प्रशंसां जनयित्वा अस्माकं मनसि पुनः तद् अहं भावसि भवति इति अस्ति तद् बहुत्र वयं गच्छामः चेत् ये जनाः वयं न जानीमः ते अपि स कदाचित् प्रशंसां कुर्वन्ति अतः सर्वदा ब्रह्मचर्यभावे वयं भवामः चेत् तदानीं तत्र क्लेशः अनुभूयते यः वदति सापि ब्रह्म यद् वदति तदपि ब्रह्म यदहं शृणोमि तदपि ब्रह्म एतादृशब्रह्मचर्य भावं यदा मनसि दीर्घतया भवति तदानीं प्रशंसा मनसि न गच्छति इत्युक्ते मया hmm. <te> <आगा>। बहुवारं <te> दृष्टं महोदयं प्रति बहु भवा, बहवः जनाः बहु किमपि वदन्ति प्रशंसारूपेण महोदय एवमेव वदन्ति परमात्मनः कृपा इति एव वदति मम किमपि नास्ति परमात्मनः कृपा इति भवति तदानीं तत्र अहङ्कारभावः न आगच्छति तदपि समीचीनं वयं तदेव समीचीनं वयं कुर्मः चेत् तदानीं तत्र सर्वदा ब्रह्मभावे एव भवति तदानीं तत्र तस्मिन् तस्मिन् तस्याम् अवस्थायामपि ब्रह्मभावं स्वीकृत्य उत्तरं वदति अस्तु भगिनि धन्यवादः अस्तु समीचीनं सम्यक् सम्यक् अस्ति प्रश्नः अस्तु तर्हि अत्र स्थगनं समयः अतः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि क्षम्यक् अहं नास्ति चेत् अहं किञ्चित् दूरी